अथ द्वात्रिंशः सर्गः ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दशा हतान्येकेन रामेण रक्षसाम् भीमकर्मणा दूषणम् च करम् चैव हतम् त्रिशिरसंव्रणे दृष्ट्वा पुनर्महानादान्ननादजलदोपमा सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् जगाम परमोद्विग्नालङ्काम् रावणपालिता सादर्श विमानाग्रे रावणम् दीप्त तेजसम् उपोपविष्टम् सचिवैर्मरुद्भिरिव वासवम् आसीनम् परमासने रुक्मवेगिगतम् प्राज्यं ज्वलन्तमिव पावकम् देवगम्भर्वभूतानामृषीणाम् च महात्मना अजेयम् समरे घोरम् व्याप्ताननमिवान्तकम् देवासुरविमर्देषु वज्राशनिकृतव्रणम् ऐरावत विषाणाग्रैरुत्कृष्टकिणवक्षसम् विंशद्भुजम् दशग्रीवम् दर्शनीय परिच्छदम् विशालवक्षसंवीरम् राजलक्षणलक्षितम् नद्धवैदूर्यसङ्काशम् तप्तकाञ्चनभूषणम् सुभुजम् महास्यं पर्वतोपमं पर्वतोपमम् विष्णुचक्रनिपातैश्च शतशो देवसंयुगे अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम् अहताङ्गैः समस्तैस्तम् देवप्रहरणैस्तदा अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्रकारिणम् क्षेप्तारम् पर्वताग्राणाम् सुराणाम् च प्रमर्दनम् उच्छेत्तारम् च धर्माणाम् परदाराभिमर्शनम् सर्वदिव्यास्त्रयोक्तारम् यज्ञविघ्नकरम् सदा पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् तक्षकस्य प्रियाम् भार्याम् पराजित्य जहारयः कैलासम् पर्वतम् गत्वा विजित्य नरवाहनम् विमानम् पुष्पकन्दस्य कामगम् वैजहारयः वनम् चैत्ररथम् दिव्यम् नलिनीम् नन्दनम् वनम् यः क्रोधात् देवोद्यानानि वीर्यवान् चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परम् तपौ निवारयति बाहुभ्याम् यशैलशिखरोपमः दश वर्षसहस्राणि महावने पुरा स्वयम्भुवे धीरः शिरांस्युपजहारयः देवदानव गन्धर्व अभयम् यस्य सङ्ग्रामे मृत्युतो मानुषा मन्त्रैरविष्टुतम् पुण्यमध्वरेषु द्विजातिभिः हविर्धानेषु यः सोममुपहन्ति महाबलः प्राप्तयज्ञहरम् दुष्टम् ब्रह्मघ्नम् क्रूरकारिणम् कर्कशम् निरनुक्रोशम् प्रजानामहितेरतम् रावणम् सर्वभूतानाम् सर्वलोकभयावहम् राक्षसी भ्रातरम् क्रूरम् सारदर्श महाबलम् तम् दिव्यवस्त्राभरणम् दिव्यमाल्योपशोभितम् आसनेषु पविष्टम् तम् काले कालमिवोद्यतम् राक्षसेन्द्रम् महाभागम् पौरस्य कुलनन्दनम् उपगम्या ब्रवीद्वाक्यम् राक्षसी भयविह्वला रावणम् शत्रुहन्तारम् मन्त्रिभिः परिवारितम् तम ब्रवीत् दीप्त विशालोचनम् प्रदर्शयित्वा भयलोभमोहिता सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे द्वात्रिंशः